माण्डुक्योपनिषत् प्रथमः खण्डः श्रीगृभ्यो नमः हरिः ॐ भद्रं कर्णेभिः शृणुयामदेवा भद्रं पश्ये माचभिर्यजत्रा शिरैरङ्गै एतुष्टुवागंसस्तनोभिः यशेमदेव हितैयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः तस्ति न पूषा विश्ववेदा तस्ति नस्ताक्षो अरिष्टदेवीः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ ओमित्येतदक्षरमिदगं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमङ्कार एव यच्चान्यत्रिकालातीतं तदप्योऽङ्कार एव सर्वगम्भूतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुस्मात् द्वितीयः खण्डः जागरितस्थानो बहिप्राज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरप्रथमः पादः स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुख द्वितीयः पादः यत्र सुप्तो न कञ्चनकामं कामयते न कञ्चन स्वप्नं पश्यति तस्य सुप्तं सुप् सुप्तस्थान एकीभूतः प्रज्ञानघनदेवानन्दमयोह्यानन्दमुक्ते त्व मुखप्राज्ञतृतीयः पादः देश सर्वैश्वर एष सर्वज्ञ एषोन्तर्याम्येष योनि सर्वस्य प्रभवाप्ययो हि भूतानां भ्रान्तः प्रज्ञं न बहिःप्रज्ञं लोभयतः प्रज्ञं न प्रज्ञानगणं न ना प्रज्ञं नाप्रज्ञम् अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यम् अव्ययम् अव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवम् अद्वैतं चतुर्थं मन्यन्ते स आत्मा स विध्येयः सोऽयमात्माध्यक्षरमोङ्कारोऽधि मात्रम् पादा मात्रा पादा अकार उकारो मकार इति जागरितस्थानो भयश्वानरोकारः प्रथमा मात्राप्तेरादित्यमत्वाद्वाप्नोति हि ते ह वै सर्वान् कामानादिश्च भवति य एवं वेद स्वप्नस्थानत्रैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति अवैज्ञानसन्ततिं रमाणश्च भवति नास्या ब्रह्मवित्कुलै भवति य एवं वेद सुषुप्तस्थानः प्राज्योम्मकारस्तृतीया मात्रा मितेरपीतेर्वामिनोति हवा इदगं सर्वमपीतिश्च भवति य एवं वेद अमात्रश्चतुर्थो व्यवहार्यः प्रपञ्चोपशमः शिवोद्वैत एव मोकार आत्मैव संविसत्यात्मनात्मानं य एवं वेद स ये य एवं वेद ॐ भद्रं कर्णेऽभिशृणुजाम देव भद्रं पश्य माध्यभिर्यजत्रा चिरैरङ्गैष्ठुभागं सस्तरोभिः यशेम देवहितै यदायुः तस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदा तस्ति न साक्षो अरिष्टदेवीः स्वस्ति नो बृहस्पतिर्दधातु ॐ शां तेषां शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु